चमकखनम् अनुवाकम् एय् यत्मश्च चेद्म यत्मश्च मे मे यत्मश्च मे च मे मे चच चचमे बर्हि मे बर्हिर्बर्हिर्मे मे बर्हिश्च बर् मेमे मे मे बरहिश्च बर्हिष्ठ चबर बरहिश्च मे मे जबरेर् बहिश्च मे च मे मे च मे वे देर् मे चच वे दिश्च चवे दिर्वेधिश्च मे मे चवे देर्वेधिश्च मे च मे मे च च मे धिष्णियाधिष्णीया मे च च मे धिष्णीयाः मे दिष्णियाश्च चधिष्णिया दिष्णियाश्च मे मे चधिष्णीया दिष्णियाश्च मे च मे मे च च मे स्रोचस्रुचो मे मे सृचः मे स्रोचस्रुचो मे मे सृचश्च चस्रुचो स्रोचश्च च स्रोचस्रोचश्च मे मे च स्रोचस्रोचश्च चमसाश्च मे चमसाश्च चमस चमसा मे मे मे च मे मे च मे ग्रावाणो ग्रावाणो मे च च मे ग्रावाणः मे मे मे ग्रावाणश्च ब्रावाणश्च च ग्रावाणो ग्रावाणश्च मे जा ग्रावानस्ट्राँ जा ग्रावानस्ट्राँ मे च ग्रावाणो ग्रावाणश्च मे च मे च च मे स्वरवस्वरवो मे च च मे स्वरव मे स्वरवस्वरवो मे मे स्वरवश्च च स्वरवो मे मे स्वरवश्च स्वरवश्चस्वरव स्वरवश्च मे मे च स्वरव स्वरवश्च मे च मे मे च चम उबरवा उबरवा मे चचम उबरवाहा म उबर वा उबर वा मेम उबरवाश्च चोपर मेम उबरवाश्च उबरवाश्च चोपर वा उबरवाश्च मे मे मे उबर वा च मे मे चच मे धिशवने अधिशवने मे चच मे मे धिशवने अधिशवने मे मे धिषवने चा मे मे धिषवणे च अदिशवणे च चाधिशवने अदिशवणे च मे मे चाधिशवने अदिशवने च मे अदिशवने इत्यादि शवने च मे च च द्रोणकलशो द्रोणकलशो मे च च द्रोणकलशः मे द्रोणकलशो द्रोणकलशो मे मे द्रोणकलशश्च चद्रोणकलशो मे मे द्रोणकलशश्च द्रोणकलशश्च चद्रोणकलशो द्रोणकलशश्च मे मे चद्रोणकलशो द्रोणकलशश्च मे द्रोणकलश इति द्रोणकलशफ च मे मे च वायव्यानि वायव्यानि मे च वायव्यानि मे वायव्यानि वायव्यानि मे मे वायव्यानि च वायव्यानि मे वायव्यानि च वायव्यानि च वायव्यानि वायव्यानि च मे च वायव्यानि वायव्यानि च च मे मे चच मे पोदभृत्पूदभृन्मे च च मे पुदभृद मे पोदभृत्पोदभृन्मे मे पुदभृच पूदभृन्मे मे पुदभृच पुदभृच पोदभृत्पोदभृच मे मे च पूदभृत् पूदभृच मे कूद भृदिपूदभृद च मे मे च च म आधवनीय आधवनीयो मे च च मधनीय वा माधवनीया आधवनीयो मे माधवनीयश्च चाधवनीयो मे माधवनीयश्च आधवनीयश्च चाधवनीया आधवनीयश्च मे मे चाधवनीय आधवनीयश्च मे आधवनीय इत्या धवनीयः च मे मे च च म अग्नेद्रमाग्नेध्रं मे च च मग्नेध्रं अग्नेध्रं च आग्नेध्रं चाग्निध्रमाग्निध्रं च मे मे चाग्निध्रमाग्निध्रं च मे आग्नेध्रमित्याग्निध्रं च मे मे च च मेघव्यर्धान गंहविर्धानं मे च च मेघव्यर्धानम् मेघ वीर्धान गों हविर्धानं मे मेघ वीर्धानं च षविर्धानं मे मेघवीर्धानं च अविर्धानं च चख वीर्धान गम् मे मे च चमे च चमे गृहागृहा मे चचमे गृहा मे गृहागृहा मे मे गृहाश्च च गृहा मे मे गृहाश्च गृहाश्च च गृहागृहाश्च मे मे च गृहागृहाश्च मे चमे च च च मे सदसदो मे च च च मे सदः मे सदं सदो सदो मे मे सदश्च च सदसदश्च मे मे च सद सदश्च मे च मे मे च पुरोडाशा मे च च मे पुरोडाशा पुरोडाशा मे मे पुरोडाशाश्च पुरोडाशा मे मे पुरोडाशाश्च पुरोडाशाश्च पुरोडाशाडाशाश्च मे च पुरोडाशा पुरोडाशाश्च मे च मे च च मे पचत मे च च पचताः मे पचता पचद मे मे पचताश्च च पचत मे मे पचताश्च पचताश्च च पचता पचताश्च मे मे च पचदा पचताश्च मे च मे मे चचमे वभृधो वभृदो मे चचमे वभृधः मे वभृधो वभृधो मे मे वभृतश्च चावभृदो मे मे वभृदश्च अवभृदश्च च वभृधो वभृधश्च मे मे च मे अवभृद इत्यवभृधः च मे मे च च मे स्वगाकार स्वगाकारो मे च च मे स्वगाकारः मे स्वगाकार स्वगाकारो मे मे स्वगाकारश्च च स्वगाकारो मे मे स्वगाकारश्च स्वगाकारश्च चवगाकारस्वकार चवकार स्वकार मे स्वगा यदि च मे मे चे मे